एवत् दशकम् साल्वदमुम् भारतपूर्वम् साल्भो वैष्मीविवाहे यदुकुलविजितश्चन्द्रचूटात् विमानम् विन्दन् सौभम् समायि त्वयि वसदि कुरु त्वत्पुरीमभ्यवाङ्क्षी प्रद्युम् न्यग्रहीदुग्रवीर्यम् तस्यामात्यम् द्युमन्तम् व्यजनि च समर सप्तविंशत्यहान्तम् तावत् त्वम् रामशाली त्वरितमुपगध खण्डितप्रायसैन्यम् सौमेशम् तम् न्यरुन्त स च किलगतया शार्ङ्गमभ्रंशयत् ते मायातातम् व्यहिंसीधपि तव पुरतस्तत्त्वया वीक्षणार्थम् नाज्ञायीत्याहुरेके दधितमवमतम् व्यास उदगनितो मङ्क्षुसाेऽपि चक्रेण उद्गृदे दन्तवक्त्र प्रसपमभिपतन् अव्यमुञ्चद्गताम् ते कौमोदक्याहतोऽसावपि सुकृतनितिश्चैत्यवत्प्रापदैक्यम् सर्वेषामेष पूर्वम् त्वयि द्रतमनसाम् मोक्षनार्थोऽवतार त्वयि या याते अन्नान्तप्राप्तसर्वाम् सजमुनिचकित द्रौभदी चिन्तितोऽध द्रौभदी चिन्तितोत प्राप्तः वनान्ते युद्धोद्योगेत मिलति सति व्रत पल्गुनेन त्वमेक कौरव्ये दत्तसैन्य करिपुरमगम दौत्यहृत्पाण्डवार्थम् भीष्मद्रोणादिमान्ये तव खलु वचने दिकृते कौरवेण व्यावृण्वन्विश्वरूपम् मुनिसतसि पुरे शोभयित्वा गतो भू जिष्णोस्त्वम् कृष्णसूथ खलु समरमुके बन्धुगाते दयालुम् खिन्नम् तम् वीक्षवीरम् किमिदमयि सखे नित्यये कोऽयमात्मा को, को वद्यः कोऽत्र धर्म्यम् युद्धम् चरेति प्रकृतिमनयत दर्शयन् विश्वरूपं। भक्तो तम् सेत भीष्मे तव धरणि वरम् क्षेपकृत्यैकशक्ते नित्यम् नित्यम् विबिध ययुतसमधिगम् प्राप्तसाधे च पार्थे नित्यस्रत्वप्रतिज्ञा विजहतरिवरम् दारयन् क्रोधशालीव आदावन् प्राञ्जलिम् तम् न दशिरसमधो वीक्षमोदादबाघाम् युद्धे द्रोणस्य हस्ती स्थिररणभगद तेरिदम् वैष्णवास्त्रम् वक्षस्या दत्तचक्र तगितरविमः प्रार्थयत् सिन्धुराजम् नागास्त्रे कर्णमुक्ते शितमवनमयन् केवलं कृत्तमौलिम् तत्रे तत्राविपार्थं पार्थम् किमिव न हि भवान् पाण्डवानाम कार्षी युद्धादौ प्रत्युत्तायिसूथ क्षयग्रदतसुतम् तत्पथे कल्पयित्वा यज्ञम् बल्वलम् पर्वणि परितलयन् स्नात तीतोरणान्ते सम्प्राप्तो भीमदुर्योधनरणमचमम् वीक्षयात पुरीम् ते क्षपणः ददियम् द्रौणिमेत्यत्वदुक्त्या तन्मौक्तम् ब्राह्ममस्त्रम् समग्रतविजयो मौळिरत्नम् च जक्रे उच्चित्यै पाण्डवानाम् पुनरपि च विच युत्तरागर्भमस्त्रे रक्षन्नङ्गुष्टमात्र किल जटरमगाच्चक्रपाणिर्विबोध्वम् धर्मौघम् धर्मसूनोर् अभिदतदखिलम् छन्दमृत्युत्सभीक्ष्म ताम् पश्यन् भक्तिभूम्नैव किसपति ययो निष्कल ब्रह्मभूयम् संयाज्यातश्वमेधैस्त्रिभि अतिमहितैर्धर्मजम् पूर्णकामम् सम्प्राप्तो द्वारकाम् त्वम् पवनपुरपते पाहि माम् सर्वरोघा भजगोविन्दम् भजगोविम् गोविन्दम् भज मुतमते